रसनां त्वद्गुणलेशैर्विशोधयामि विभो साम्ब सदा शिव शम्भो मे तव चरणयुगम् आखण्डलमदखण्डनपण्डिततण्डुप्रियचण्डीश विभो साम्ब सदा शिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् चर्माम्बर शम्बर पुवपुरपहरणोज्वलनयन विभो साम्ब सदा शिव शम्भो शरणं मे तव चरणयुगम् ईशगिरीश नरेश परेश महेश विलेशय भूषण भो सदा शिव शम्भो शरणं मे तव चरणयुगम् दिव्यसुमङ्गलविग्रहयालिङ्गितवामाङ्गविभो साम्ब सदा शिव शम्भो शङ्करशरणम् मे तव चरणयुगम् दूरीकुरु मामज्ञमनाथम् दूरीकुरु दूरी सदा शिव शम्भो शङ्करशरणम् मे तव वरमानसहंसचराचर जननस्थितिलयकारण भो साम्ब शरणं मे तव चरणयुगम् रुक्षाधीश किरीटमहोक्षारूढ विदृतरुद्राक्ष शरणं मे तव चरणयुगम् मभृन्तसुकुसुमपि वाङ्घ्रौ तवार्पयामि विभो साम्ब सदा शिव भ्यो वितरसि विश्वम्भरोऽत्र साक्षी भो साम्ब सदा शिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ओमिति तव निर्देष्ट्री मायास्माकम् मृडोपकर्त्री भो साम्ब सदा शिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् स्फुटयति विषयेषु दिगम्बरता च तवैव विभो साम्ब सदा शिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् अन्तःकरणविशुद्धिम् भक्तिम् च त्वयि प्रदेहि विभो साम्ब सदा शिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् स्तोपाधि समस्त व्यस्तैरूपैर्जगन्मयोऽसि विभो साम्ब सदा शिव शम्भो शङ्कर मे तव चरणयुगम् करुणावरुणालय मयि दासौ दासस्तवोचितो भो साम्ब सदा शिव शम्भो शरणं ने तव चरणयुगम् संविघटय घटय सतामेव सङ्गमनिशम्भो साम्ब सदा शिव शम्भो शङ्कर मे तव चरणयुगम् गर्णम् जगदुपकृतये भवता समोऽस्ति कोत्र साम्ब सदा शिव शम्भो शङ्कर मे तव चरणयुगम् गौरगात्र प्रचुर जटाजूटबद्ध गङ्गविभो साम्ब सदा शिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् यप्तिस् सर्वशरीरेष्वखण्डिताया विभाति सा त्वम्भो साम्ब सदा शिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् म् मम हृदय कपिम् विषयद्रुचरम् दृढम् पधान वि भो सा वसदा शिव मे तव चरणयुगम् छायास्थाणोरपि तव तापम् नमताम् हरत्यहो शिव भो सा वसदा शिव शम्भो शङ्करचरणम् मे लासनिवास प्रमथ गणाधीशभूसुरार्चित भो सा वसदा शिव शम्भो शङ्कर चरणम् झणुतक झङ्किणु झणु तत् किटतक शब्दैर्नटसि महानट भो सा वसदा शिव शम्भो आवृतिरहितम् कुरु मे गुरुत्वमेव विभो साम्ब सदा शिव शम्भो शङ्करशरणम् मेतव चरणयुगम् टङ्कारस्तव धनुषोदलयति हृदयम् विषामशनिरिव भो साम्ब सदा शिव शम्भो शङ्करशरणम् मेतव चरणयुगम् तव माया बहिरन्तः शून्यरूपिणी खलु भो सा बसदा शिव शम्भो शङ्कर शरणम् ने तव चरणयुगम् दम्बरमम् बुरुहामपि दलयत्यनघम् त्वदङ्ग्रियुगलम्भो साम्बसदा शिव शम्भो शङ्कर शरणम् ने तव सूत्रशूलद्रुहिणकरोटी समुल्लसत्कर ति सञ्जपतः सद्यस्तरति नरोहि भवाम्भो साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॐकारस्तस्य मुखे भूयात्ते नाम नास्ति साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् श्च दयालुः कोऽस्ति मदन्यस्त्वदन्यैह वद भो साम्ब धनुषा लुब्धदियात्वम् पुरा नरेण विभो साम्ब सदा तया जनुष त्वत्पदसेवासनातनेश विभो साम्ब सदा शिवशम्भो शङ्कर शरणम् मे प्रदेहि विभो साम्ब सदा शिवशम्भो शङ्कर र्गभयापह पूतपते भूतिभूषिताङ्गविभो साम्ब सदा शिव शम्भो शङ्करशरणं मे तव चरणयुगम् महिमातव नहिमातिश्रुतिषु हिमानीधरात्मजाधव भो साम्ब सदा शिव शम्भो शरणं मे तव चरणयुगम् म्भो साम्ब सदाशिवशम्भो शङ्कर शरणं मे तव चरणयुगम् रज्जा बहिरिव शुक्तो जगन्ति भान्ति विभो साम्ब सदाशिवशम्भो शङ्कर शरणं मे तव चरणयुगम् भवत्प्रसादाच्चक्रम् विधुरवति लोकमखिलम्बो साम्ब सदाशिवशम्भो शङ्करशरणम् मे तव चरणयुगम् वसुधा तद्धरतच्छय रथमो वीषर पराकृता सुरभो साम्ब सदाशिवशम्भो शङ्कर शरणम् मे तव चरणयुगम् सर्वोत्तम सर्वदुर्वृत्तगर्वहरणविभो साम्ब सदा शिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् षड्रिपुषडूर्मिषड्विकारहर सन्मुखषण्मुखजनकविभो साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् मनन्तं ब्रह्मेत्येतल्लक्षणलक्षित भो साम्ब सदा शिव शम्भो शरणं मे तव चरणयुगम् हा हाहुः मुखसुरगायकगीतापदानपद्यविभो साम्ब सदा शिव शम्भो शरणं मे तव चरणयुगम् प्रयोगस्तदन्तमिह मङ्गलम् सदास्तु विभो साम्ब सदा शिव शम्भो शङ्कर मे तव चरणयुगम् क्षणमिव दिवसान्वेषति तत्पद सेवा क्षणोत्सुकः साम्ब सदा शिव शम्भो शङ्कर मे तव चरणयुगम्